हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे प्रथमस्कन्धे द्वादशोऽध्यायः सूत उवाच ततः पुरो इलायां कथयामिव बुधपुत्रोऽति धर्मात्मा यज्ञान्यो नूपाल सत्यवादीजितेन्द्रिय सैन्धवम् हयमारुह्य चार मृगया मनये युत कतिपया मात्यै दर्शितश्चारुकुण्डलः धनुराज गवं बद्ध्वा बाणसङ्घं तथाद्भुतं स भ्रमन् तद्भनोद्देशे हन्यमनोरुन् मृगान् शशांश्च सुकरांश्चैव खड्गांश्च गवयान्त शरभान् महिषा चैव साम्भरान् वन कुक्कुटान् निघ्नमयन् निघ्नन् मेध्यान् पशुन् राजा कुमार वनमाविश निरो दिव्यम् बन्दार द्रुमराजितम् अशोकलचिकाकिरणम् बकुलैरधिवासितं तालयितालितमालै चम्पकैः पन्नसै तथा आम्रे नीपै मधुकै माधवी मण्डपावृतम् दाडिमय नारिकेल च कदलीखण्डमण्डितम् युथिका मालति कुन्द पुष्पवल्ली समावृतम् हंसकारण्ड वाकिर्णीचकध्वनिदादितं भ्रमरलिता रामम् वरं सर्वसुखावहं दृष्ट्वा प्रमोदितो राजा सुम् वृक्षान् सुपुष्पितान् वीक्ष कोकिला रामण्डितान् प्रविष्ट तत्र राजसि स्त्रित्वम् अपेक्षणात् ततः अश्वपीवरवादात् चिन्तावीष्ट स भूपतिः किम् एतदिति चिन्तात् पुनः पुनः दुःखं बहुतरं प्राप्त सुब्धुं यो लज्जयान् करोमि कथं यामि गृहं स्त्रीभावसंयुतः कथं राज्यम् करिष्यामि केन वा वञ्चितो ह्ययम् ऋषयौचु सुताश्चर्यमिदम् प्रोक्तम् त्वया ल्यल्लो महर्षण शुद्धुम् न्यसि त्वमापन्नो भूपती सन्निभ किं तत्कारणम् वने तत्र मनोहरे किं तेन राज्ञा च विस्तरं सुव्रत सुत एकदा गिरिशम् द्रष्टुम् ऋषयः सनकादय दिशो विथिति मृदा भासा कुर्वन्तः समपागमन् तस्मिन् च समये तत्र शङ्करः प्रमोदायुतः क्रीडासक्तुमादेवो विवस्त्राकामिनी शिवा उत्सङ्गे संस्थिता भर्तु रममाणा मनोरमा तान् विलोक्याम्बिका देवि विवस्त्रा भक्तुङ्कात् उत्थाय वस्त्रम् आदाय पर्यधात् लज्जाविता स्थिता तत्र वेपमानाति ऋषयोऽपि nope पी तयोर्वीक्ष्य प्रसङ्गं रममाणयोः परिवृत्य युस्तूर्णं नरनारायणाश्रमम् कामिनिं वीक्ष्य प्रोवाच भगवान् हर कथं लज्जातुरासीतम् सुखं ते प्रकरोम्यहम् अद्य प्रभृति यो मोहात् पुमान् कोऽपि वरान् वे वनं च प्रविशेदे तत् सवै योषीद्भविष्यति इति शब्दं वनं ते न ये जानन्ति जना क्वचित् वर्जयन्ति ह ते कामम् वनं दोष समृद्धिमयत् सुद्दुम्न्यस्तु तदज्ञानात् प्रविच्य शचिवै सह तथैवस्ति स्त्रीत्वम् आपन्द तैः सहेति संशय चिन्ताविष्ट राजी न जगाम गृहं विचारे भलैति नाम सम्प्राप्तं स्त्रित्वे तेन महात्मनः विचरन् तत्र सम्प्राप्तो बुध सोम सुतो युव स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां हावभावे कलायुक्तां चकमे भगवान् बुध सा पी तं चकमेकान्तं बुधं सोम सुतम्पतिं संयोग तत्र संजाते, तयो प्रेम्णा परस्परं स तस्यां जनयामास पुरु समात्मयम् इलायां सोमपुत्रस्तु चक्रवर्तीमं सा प्रासूत चिन्ताभीष्टा विस्थिता तस्मात् स्वकुलाचार्यम् वसिष्ठम् तदा स्यशाम् दृष्ट्वा शुद्धम् न्यस्य कृपान्वितः अतोषयन् भ देवम् शङ्करम् लोकशङ्करम् तस्मै स भगवान् तुष्ट प्रदतो वाञ्छितम् वरम् वसिष्ठ प्रार्थयामास पूतम् राज्ञ प्रियस्य च शङ्करस्थून् यां वाचम् मृतां कुर्वन्वाचः मासंमास्तु भविता मासं श्रीभूपति किल इष्टम् प्राप्य वरम् राजा जगन्भेश्व गृहम् पुनश्चक्रे राजम् स धर्मात्मा वसिष्ठस्यात्मयनुग्रहेतिष्ठति धर्मेषु पुं त्वे राजम् प्रयाति प्रयास्तस्मिन् समुद्विघ्ना नाभ्यनन्दन् काले तु यौवनम् प्राप्य पुत्र पूरोर्वा तदा प्रतिष्ठां नृपति तस्मै दत्त्वा राज्यम् वनौ ययौ गत्वा तस्मिन् वने रम्बे नानाध्रूम समाकुले नारदान् मन्त्रमासाध्य नवक्षरमनुत्तमम् जजापय मन्त्रमत्यर्थं प्रेम पूरितमानसः परितुष्टा तदा देवी सगुणायतारिणी शिव किंवा रूढास्ति ताचाग्रे दिव्यरूपा मनोरमा वारुणी पानसम्मत्ता मदाघूर्णीतलोचन दृष्ट्वा तां दिव्यरूपाञ्च प्रेमाय कुलितलोचन पणम्य शिरसा प्रीत्या पृष्टा भ जगदम्बिकाम् इलोवाच दिव्यं च ते भगवते प्रथितं स्वरूपम् दृष्टं मया सकलोकहितानुरूपम् वन्दे त्वदङ्घ्रिकमलम् सुरसङ्घसेव्यम् कामप्रदम् जनपि चापि कोवेति च को वेत्ति यत्र मुनयैश्च सुराश्च सर्वे ऐश्वर्यमेतदखिलम् कृपणे दृष्ट्वैव देवि सकलम् किल विस्मयोऽम्बे शम्भुर्हरिकमलयो मगवार्विच विते च वाणिवरुण पवन च सोम जानन्ति नैव वसवोऽपि ते प्रभावम् बुद्धेत्कथन्तवगुणान् अगुणो मनुष्य जानाति विष्णुरमितद्युतिरम्ब साक्षात् ं सातिकीम् उदधियां सकलार्थदाञ्च को राजसिंहरो मां किलतामसिं त्वाम् वेदाम्बिकेन तु पुनः खलु निर्गुणान् त्वां क्वाहं सुमन्दमतिर प्रतिमप्रभवे क्वाजं तवाति निपुणो मयि सुप्रसाद जाले भवानि चरितं करुणासमेतम् यत्सेवकः च दै से त्वयि भावयुक्ताम् वृत्ता त्वया हरिरसो वनजेशयापि नैवाचरत्यपि मुदम् मधुसूदनश्चे पादो तवादिपुरुषे किल पावकेन कृत्या करोति च करेण शुभौ पवित्रौ पादाहतीं प्रमुदिते पुरुषे पुराणे तान्तम् करोषिरुषिता प्रणतं च पादे दृष्ट्वा पतिं च कलदेव न तम् स्मरातम् वक्षस्थले वससि देवि सदैव तस्य विपुलेति शान्ते सौदामिनी सुघने भूषिते च किं तेन वा जगदीशरोऽपि त्वं चेजहासि मधुसूदनमम्बकोपान् दैवाचितोऽपि स्वभवेत् किल शक्तिहीन प्रत्यक्षमेव पुरुषं स जना त्यजन्ति चान्तं च योजितमतीव गुणैर्वियुक्तम् ब्रह्मादयस्वरगणा न तु किं त्वय्यवत्यो ये दिशमाश्रयन्ति मन्ये त्वयैव विहिता खलु ते पुमांस किं वर्णयामि तव शक्तिमनन्त वीर्ये त्वं दापुमान्न पुमान्निति मे विकल्पो या काशी देवि स गुण ननु निर्गुणाव तां त्वं त्वां नमामि सततं किल वाञ्छामि भक्तिमचलम् त्वयि मातरं तु श्रुतवाचे इति स्तुत्वा महे पालो जगामशरणं तदा परितुष्टा तदौ देवी तत्र सयुज्यमात्मनि शुद्धिं न स्तु प्राप्य पदं परमखं स्थिरम् तस्या देव्या प्रसादेन मुनिनामपि दुर्लभम् इति श्रीमद्देवी भागवते मा पुराणे षष्टादशी शास्त्रां संहितायाम् प्रथमस्कन्धे सुद्युम् न स्तुति नाम द्वादशोऽध्यायः